श्रीमान्वेङ्कटनाथार्यकवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि जयत्याश्रितसन्त्रासध्वान्तविध्वंसनोदयः प्रभावांसीतया देव्या परमव्योमभास्करः जय जय महावीरा महाधीरधौरेया देवासुरसमय समुदित निखिल निर्धारितमाहात्म्या दशवदनदमित दैव परिषदभ्यर्थित दिनकर कुलकमलदिकर दिविशदधिपतिरण सहचरण चतुरदशरथ चरमरण विमोचन कोसलसुताकुमारभाव कञ्चुकितकारणाकार कौमारकेलि गोपायित कौशिकाध्वर प्रणाध्वर धुर्यभव्य दिव्यास्त्र बृन्दवन्दित प्रणतजन विमत विमथन दुर्ललित दोर्ललित तनुतर विशिकविताटन विघटित विसरारु सरारु ताटका ताटकेय जटगिरन सगलधर जटिल नटपति मकुट तट नटनपटु विबुध सरि दधिपगगुल मधुगन ललित पद नलिन रज उपमृद निजवृजिन जगदुपल तनुचिर परममुनिवर युवतिु खुशुत खचित विदिताव विविध कथा मैचिलनगर सुलोचनालोचन चकोर चन्द्र खण्डपरसु कोदण्ड प्रकाण्ड खण्डन शौण्ड भुजदण्ड चण्डकर किरण मण्डल बोधित पुण्डरी गवनरुचि लुण्ठा हृदय निखिल नरपतिवर्ण जनकुहितृकुचतट विकरण समुचित करतल शतकोटि शतगुण कठिन परशुधरमुनिवरकर धृत दुरवनमतमनिज धनुराकर्षण प्रकाशित क्रतुकरशिखरि कन्तुक विहृत्युन्मुख जगदरु दन्त दन्ति दन्तरभरित पृथुतर तटाकर्पित पितृकभृकुपति सुगति विगति करनिषु परिघ अनृतभयमुषित हृदय पितृवचन पालन प्रतिज्ञावैज्ञात यौवराज्य निषादराजसौहृद सूचितसौशील्यसागरा भरद्वाजशासन परिगृहीत विचित्रचित्रकूटगिरिकटकट रम्यावसथ अनन्यशासनीया प्रणतभरतमकुटतटघटित पादुकाग्र्याभिषेक निर्वर्तित सर्वलोकयोगक्षेमा पिशितरुचिविहित दुरितवलमथनतन जलिभुगनुगतिसरभ शयनतृण शकल परिपतन भय चकित सकल बहुमत महास्त्रसामर्थ्या द्रुहिण करवलमतन दुरालक्ष्य शरलक्ष्य दण्डका तपोवन जङ्गमपारिजात विराजहरिणशार्दूल मिलुडितबहुफलमखकलम रजनिचर मृगमृगजारम्भ सम्भृद चीरभृदनुरोध त्रिशिरशिरस्त्रितयतिमिरनिरास वासरकर दूषणजलनिधिशोषणतोषित ऋषिघणघोषितविजयघोषण खरतरखरतरुखण्डनचण्डपवन दुःसप्तरक्षःसहस्रनळवन विलोलन महाकलभ असहाय शूर अनपाय साहसा महितमहामृतदर्शनमुदितमैथिली दृढतरपरिरम्भण विभव विरोपित विकटभीरौ मारी च मायामृगचर्म परिकर्मित निर्भर दर्भास्तरणा विक्रमयशो लाभविक्रीत जीवित गृध्रराजदेहदिक्षालक्षित भक्तजनदाक्षिण्या कल्पित विबुधभावकबन्धाभिनन्दिता अवन्ध्यमहिममुनिजन भजन मुषित हृदय प्रभञ्जनतनय भावुकभाषित रञ्जितहृदया तरणि सुतशरणागति परतन्त्रीकृतस्वातन्त्र्या झटघटितकैलासकोटिकटुन्दुपि कङ्कालकूटदूर विक्षेप दक्ष दक्षिणेतरपादाङ्गुष्ट अतिपृथुल बहुविटपि गिरिधरणि विवर युगपदुदय विपुलभुजशैलमूल निपीडित रावणरणक जनक चतुर्ण चतुर कपिकुलपतिकृतज विल दारण दारुणशिलीमुख अपारपारिघा परिवृत पर पुर परसृत दव दहन जवन पवन भव कपिवर परिष्वङ्गभाविद अहितसहोदर रक्ष परिग्रह विसंवादि विविध सचिव विप्रलम्बसमय संरम्भसमुजृम्बित सर्वेश्वर भावा भाव सकृत्प्रपन्नजन संरक्षण दीक्षिता हे वीरा सत्यव्रत प्रतिशयन भूमिका भूषित पयोधि पुलिना प्रलयशिखि परुषविशिखशिका शोषिता कूपारभारिपूरा प्रबलरिपु कलघकुतुकचटुलकपिकुलकरतलतुलितहृदगिरिनिकरसाधितसेतुपथ सीमा सीमन्तितसमुद्रा द्रुतगति तरुमृगवरूथिनी निरुद्धलङ्कावरोधवेपथु लास्य लीलोपदेश देशिगधनुर्ज्याघोष कार्मुकवि निर्गत विकट विशिख विताटन विघटित मकुटविश्रवस्तनय विश्रमसमय मिश्राणन विख्यात विक्रम कुम्भकर्ण कुलगिरिशङ्कङ्कपत्र अभिचरण हुतवख परिचरण विघटन सरभस परिपतदपरिमित कविबलधिलहरिकलकलरव कुपित मघवजिदभिगन कृतनुज साक्षिक राक्षस सा द्वन्द्वयुद्ध त्र्यम्बक समधिगघोरास्त्राडम्बर सारथि हृतरथ सत्रप शात्रव सत्यापितप्रताप चितशरकृतलवन दशमुखमुख दशक निपतन पुनरुदय निपतन धर गलित जनितर तरलरिगजन जन नळिनवनरुचिकचित निपतित सुरतरुकुसुमभितति अखिल जगद्वि पितृपति निरुति वरुणा पावना धना गिरीश प्रमुख सुरमति नुतिमुदित अमितमति विगतभय विबुध विबोधित वीरशयनशायित वी वी वानरपृतनौघ स्वसमय विघटित सुघटित सकृदय सकधर्मचारिणीक विभीषणवशंवदीकृतलङ्कैश्वर्य निष्पन्नकृत्य खपुष्पितरिपुपक्ष पुष्पकरभसगति गोष्पदीकृत गगनार्णव प्रतिज्ञार्णवतरण कृतक्षणभरत मनोरथसंहित सिंहासनाधिरूढ स्वामि राघव सिंहाकटकीठ निकटतटपरिलुठित निखिल नृपति किरीटकोटिविविध मणिगण किरण नीराजित चरणराजीव दिव्यभौमायोध्याधिदैवता पितृवध कुपितनृपहन कदन पूर्वकालप्रभव शतगुणप्रतिष्ठापितधार्मिकराजवंशुभचरितरत भरत कर्विदगर्वगन्धर्वयूधगीतविजयगाधा शत शासित मधुसुत शत्रुघ्नसेविता कुशलव परिगीत कुलगाथा विशेष विधिवश परिणमदमरपणिति कविवर रचित निज चरित निबन्धन निशमन निर्वृता सर्वजन सम्मानित पुनरुपस्थापित विमानवर विश्राणन प्रीणित वैश्रवण विश्रावित यश प्रपञ्च पञ्चतापन्न मुनिकुमारक संजीवनामृत त्रेतायुग प्रवर्तित अविकल बहुसुवर्ण हजमख सहस्रनिर्वहण निर्वर्तितनिजवर्णाश्रमधर्म सर्वकर्म समाराध्य सनातनधर्मा सौकेतजनपदजनिधनिगजङ्गम तदितरजन्तुजातदिव्यगतिदानदर्शितनित्यनिस्सीम वैभव भवत पनतापितभक्तजन भद्र रामे श्रीरामभद्र नमस्ते पुनस्ते नमः चतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने नमः सीता समेताय रामाय गृहमेधिने कविकथकसिंहकथितं कठोरसुकुमारगुम्भगम्भीरं भवभयभेषजमेतत् पठत महावीर वैभवं सुधियः प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानतारण जगदवस्थानकारण निखिलदुष्कर्म कर्षणा निगमसत् धर्म दर्शन जय जय श्री सुदर्शन शुभजगद्रूपमण्डन सुरगणत्रासखण्डन शतमख ब्रह्मवन्दित शतपथ ब्रह्मनन्दिता प्रथितविद्वत्सपक्षिता भज दहिर्बुध्नलक्षित जय जय श्री सुदर्शना जय जय श्री सुदर्शना स्फुटतटिज्जालपिञ्जर पृथुतरज्वाल पञ्जर परिगतप्रत्नविग्रह परिमितप्रज्ञदुर्ग्रहा प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय श्रीसुदर्शना जय जय श्रीसुदर्शना निजपदप्रीतसद्गण निरुपधिस्फीतषड्गुणा निगमनिर्व्यूढवैभव निजपरव्यूहवैभवा हरिगयद्वेषिधारण हरपुरप्लोषकारण जय जय श्री सुदर्शना जय जय श्री सुदर्शन दनुज विस्तार कर्तन जनितमिश्रा विकर्तन धनुज विद्यानिकर्तन भजद विद्या निवर्तन अमरदृष्टस्वविक्रमा समरजुष्टभ्रमिक्रमा जय जय श्री सुदर्शन जय जय श्री सुदर्शन प्रतिमुखालीढ बन्धुर पृथुमहाहेतिदन्तुरा विकटमाया बहिष्कृता विविधमाला परिष्कृता पृथुमहायन्त्रतन्त्रित दृढदया तन्त्रयन्त्रित जय जय श्री सुदर्शन जय जय श्री सुदर्शन षडक्षर षडरचक्रप्रतिष्ठिता सकलतत्त्वप्रतिष्ठिता विविधसङ्कल्पकल्पक विभुधसङ्कल्पकल्पक जय जय श्री सुदर्शनं जय जय श्री सुदर्शनं भुवननेतस्त्रयीमया सवनतेजस्त्रयीमया निरवधिस्वादुचिन्मय निखिलशक्ते जगन्मया अमितविश्वक्रियामय शमितविश्वभयामय जय जय श्री सुदर्शना, जय जय श्री सुदर्शना जय जय श्री श्रीसुदर्शन द्विचतुष्कमिदं प्रभूतसारं पठतं वेङ्कटनायकप्रणीतं विषमेऽपि मनोरथप्रधावन् न विहन्येतरथाङ्गधुर्यगुप्तः कविताहर्किकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदाहन्तगुरवे नमः लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजाम् वन्दे मुकुन्दप्रियां मातर्नमामि श्रीविष्णुहृत्कमलवासिनि विश्वमातः क्षीरोदये कमलकोमलगर्भगौरी लक्ष्मीप्रसीदसततं नमतां शरण्ये जय दुग्धाब्दितनये जय शार्ङ्गधरप्रिये जयकारुण्यसुरभे जय, जय लावण्यवारिधे जय जय जय, जय दिव्यदिन्दीवरच्छाय कूलङ्कष सन्धिकालिन्दिका मन्द मन्दानि लोदञ्चिवीची समीचीनवेणी भवत्केशपाशातिचीभूतपाचोददे पीतपासोधरे बिम्बसोणाधरे जृम्बमाणामृताभीषु बिम्बायुतेनासु सम्प्राप्तसौन्दर्यवक्त्रारविन्दे धरस्पन्दभक्ष्मत्वयी पक्षसंलक्ष्य चक्षुर्मिलिन्दे सुधासत्रिगुक्तिच्छलोत्यन्मरन्दे गिरन्दे हि दे पीडितुं त्वाभिपन्दे शरत्पर्वचन्द्रक्षरच्चन्द्रिकाकर्वगर्वैक सर्वङ्कषस्फार रोचि स्फुरन्मन्दहासे लसच्चन्द्रघासे तनीयो नतप्रूयुगीयोपमानी यदा मोदमानेषु चञ्चच्छरासे दयासारसारोल्लसत् ऋक्विलासे ततो भक्तिभाजां कृतां गोनिरासे मणिमण्डलप्रोह्लसत्कुण्डले तज्जितो दग्रभानुमन्मण्डले कम्बुदुष्प्रापकण्ठाभयालङ्कृते कंसजित् सत्कृते कञ्चगर्भस्थिते कुम्भिकुम्भप्रतिद्वन्द्विवक्षोरुहे बाहुदम्बोल्लसत्कल्पकानोकहे शातकुम्भद्युते साधुकुम्भस्तुते केसरस्वत्सुते योगि हृर्दुर्ग्रहाकार मध्ये महाभोगि मध्ये सजाधीश वक्षस्त लेखिला शास्यली ले कौस्तु भाभापरीवाकबाला तपोदारपादारविन्द प्रभे पाहि पद्मे सुभे पद्मसल्लञ्चिते प्रत्तसत्त्वाञ्चिते भक्तलोकाञ्चिते वेदवेदान्तवेद्यग्रहोदीर्णदौर्गत्य वैद्येन वध्ये वधूमात्रदुष्प्रापसद्रूपधेये जगत्पावयन्नामधेये करेरूपधेयानुरूपे दृशा निर्जितत्रस्तसद्रूपधेजे वपुषोभजातो भव जातरूपे अतिलावण्य रामः समाजाभि रामे रमे मञ्जुकञ्ज स्फुरत् पाणिपालिका मोहविश्राणन प्रक्रियैकाग्रपुङ्खानुपुङ्खानुधावत्कटाक्षप्रभागे मृणालप्रतिस्पर्धिभागे ललाटे लित्रकीचक्रितङ्कुनाभे सुधायः सनाभे अनुभावा तुला विप्रभास्वत्तुला कोटियुक्ते मृतस्यन्ति सूक्ते अभिमन्तारुमन्दार सन्तार शाखे विशाखेश लोकेश मेघेश जानादि नानादि ना बहु कोभिरराजिते भारती वन्दिते पार्वती नन्दिते वासवि सेविते कासमादेविते अयि जननी दयासुधासार संप्लवित पङ्गसंभावितो यस्त्वया वासभूमिः श्रियानन्यसाधारणीभूतयः श्लिष्यते तावदज्जुष्यते तद्गृगद्वारमुद्यन्मदैरद्रिवद्बन्धुरैः सिन्दुरैरप्युदं जन्मरुद्बन्धवैः सैन्दवैरं सुमन्मण्डलीनन्दनैः स्यन्दनैः पत्यभिप्राप्तसंपत्तिभिर्विस्मृता पत्यभिः संहतिर्वैरिणां तेन सञ्जीयते जायते तत्विषां प्राणनं तस्य चेत् चूडायते। सगाधीशचूडायते तद्वशी बोभवित्युर्वशी भूयते तत्पदि रम्भसं रम्भया रम्भया वाहनं तस्य चैरावतो वाच वा वारितो गीयते तद्यश सर्वहादिगन्धर्ववर्गैरलं पुष्कलं तद्यश स्रोतसा सर्वदिक्पूयते तस्य सिद्ध्यन्ति नानापुमर्था विना वासमर्था जनाः किं परं वर्ण्यते यत्तव पङ्गतो विश्वमेतच्चरत् स्थावरकारमध्ये धते पाहि पद्मालये पाहि पद्मानने पाहि कारुण्यसिन्धो नमस्ते समस्तेऽपि सितार्थप्रदानैकतानैकहस्ते मुहुस्ते पुनस्ते नमस्ते समस्ते नमस्ते नमः सामाधिश्रुतिघोषितात्मविभवा हेमारविन्दासनाम् धामाधकृददिव्यकाञ्चन रुचिः सोमाभिरामानना रामाशार्गधरस्य कोमलता नामस्तु भूमौ सतां सीमासद्गुणसम्पदाम् अविरतक्षेमाय भामामणिः पत्युप्रभावलयिकौस्तुभवैजयन्ती श्रीवत्सभूषणमुरः परिभूषयन्ती मंगल दुग्धाम्बुराशिकुलमङ्गलवैजयन्ति श्रीकोमलास्तु सततं सुगुणैर्जयन्ति ओ े विशृणुयामदेवाः भक्त्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः यशेवदेवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति न पूजा विश्वमेदा स्वस्ति न स्तार्क्ष्योऽधिष्ठनेमिः स्वस्ति नो बृहस्पत्यर्दधातु तिश्च तिशन्तिः सहस्वसीदृशम् देवं विश्वाक्षम् विश्वशम्भुवम् विश्वं नारायणम् देवमक्षतं पदपम् पदम् विश्वतः पदमान् नित्यं विश्वं दादायटगं गतिम् विश्वमे वेदं पुरुषस्तद्विश्वमुपजीवति पतिं विश्वस्यात्मे स्वतगं साश्वतगं शिवप्रच्युतम् यकम् महाक्वेदम् विस्वात्मानं पराजम्परो ज्योतिरात्मा नयकपरम् ब्रह्मत त्वम् यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत् सर्वम् व्याप्य नादायट स्थितः अनन्तमव्ययम् कविगुं समुद्धे तं विश्वशम्भुवम् पद्मकोशप्रतीकाशदुम् हृदयञ्चाप्यतोमुखम् अथो निश्चापितश्चन्तुनाप्यमुपधितिष्ठति मालमादाकुलम् भाति विश्वस्यायतम् महति सन्ततगुम् सिदाति स्थूलम् बत्याकोशसन्दिभम् तस्यान्ते सुषिदगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महादग्निर्विश्वार्चिर्दिश्वतोमुखः सोप्रभुक् वि भजन्ति स्तन्दाहारमजरः कविः किल्यगूर्ध्वमदः साजिरश्मयस्तस्य सन्तता सन्तापयति स्वेहमापादतधमस्तगम् तस्य व्यवस्थिता पीदतो यदमध्यस्ता विद्युल्लेखेवबा स्वराशुङ्कवत् पीता बास्यात् तदनुपमा कस्याया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म सशिवत्सथित् सेम् दत्सोक्षरः परपस्वरातरुम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वते तम् विरूपाक्षम् विश्वरूपाय वै नमो नमः मायटाय वित्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयाथी ॐ हिरण्यवर्णां गदिनीं सुभर्णरजतस्रजाम् जातवेदो जातवेदो लक्ष्मीमनपगादिनी यस्यां हिरण्यं विन्देजङ्गामस्वं पुरुषानहम् अश्वपूर्वां रथमज्जादुं ह्रस्तिनादप्रबोधिनी श्रियन् देवीमुपहक्वये श्रीर्मादेवी जुषतां सोऽस्थिताम् हिरण्यप्राकारमार्द्राञ्ज्वलन्तीम् वृत्ताम् तर्पयन्तीम् पत्ने स्थिताम् पद्मवर्णान् त्वामिगोपक्वये श्रियम् चन्द्रम् प्रभासां यशसा ज्वलन्ती लोके देवजुष्टामुदा ताम् पत्नी शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे दित्यवर्णे तपसोधिजातो वनस्पतिस्तपवृक्षो च बिल्वः तस्य पलादि तपसादु दन्तु भाजान्तधाजायाश्च भाख्या अलक्ष्मीः उपैतु मान्देव सख् कीर्तिश्च बलिनासः दुर्भूतोऽस्मि राष्ट्रेस्मिन् कीर्तिमृत्तिम् दधातु मे चुप्पाशालञ्जेष्टमलक्ष्मी नाशयाम् व्यहम् अपूतिपसमृद्धिं च सर्वान् निर्नुदधि गृहाति गन्धद्वारा दुरादर्शा नित्यपुष्टाङ्कधीषिणी ईश्वरीकुम् सर्वभूताम् त्वाभि गोपः क्वजे श्रियाम् मनसक्तामपाकुतिम् भाचः सत्यवशीमही वसूदागुं रूपमन्दस्य भजि श्रीस्रजताङ्गशः कर्तमेन प्रजा भूतमयि सम्भव कर्तमा श्रियं पासय कुले मातरम् पद्मबालिनी आपसृजन्तुस्निग्धाचिक्ली तव स मे गृहे निच देवीम् वासयमे कुले आर्ताम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनी चन्द्राम् हिरण्मयीम् लक्ष्मीञ्जातवेदो म आवह आर्ताम् जःकरिणीम् यष्टिम् सुवर्णाम् हेममालिनी ताम जातवेदो यस्याम् हिरण्यम् प्रभूतम् गावो दास्यो स्वान् दिन्देयम् पुरुष नहम् पद्मप्रिये पत्नि पद्महस्ते पद्मालये पद्मदलयताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधत्स्व श्रियै जातश्रिय आदितिजाय श्रियंवयोजति तृभ्यो ददातु श्रियम्बसाना अमृतत्वमायम्भवन्ति सत्या सपि च वितद्रौ ऊ श्रिय एवैरन्तच्छ्रिया मा दधाति सन्ततमृता वषकृत्यै सन्तत्तगुम् प्रजया पशुभिः य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् त्तदैदै तन्नवदीतं नवदीतं तदैदैस्तवदीतम् तन्नवदी तन्नवदी तन्त तन्नवदीत मबवदब भन्नवदी तन्त तन्नवदीत मबवति नवनीतमबवदब भन्नवनीतन्नवदीतमबवत्यद्यदबव नवदीत तन्नवदीत मबवत्यति नवदीतपिति नव र्पदसर्पदसर्पत्यर्पदसर् पत्यत्यसर् पत्तदशर् पत्यदसर् पत्त र्पे सर्पेर भवति सर्पेर भवति यद् भवद पत्यदत्र यद त्रियत त्रियत यद्यद त्रियतत्तदत्रियत यद्यद त्रियत तत् कृतम् तत्कृतम् कृतम् तत्तत्कृतपभवदवत्कृतम् तत्तत् कृतपभवति सा विष्णो विष्णोतास्ता विष्णो पाहि पाहि विष्णोतास्ता विष्णोपाहि विष्णो पाहि पाहि विष्णो विष्णो पाहि पाहि पाहि पाहि विष्णु विष्णो पाहि पाहि विष्णु पाहि पाहि विष्णो विष्णो पाहि पाहि पाहि पाहि विष्णो विष्णो पाहि पाहि विष्णो इति विष्णु पागी पागी पागी पागी पागी पागी जय्यं जय्यं पागी पागी पागी पागी पागी जय्यं पाशी जय्यं जय्यं पागी पागी जय्यं पागी पाशी जय्यं पागी पागी जय्यं पाशी जय्यं जय्यं पागी पागी जय्यं पाशी जय्यं जय्यं पागी पागी जय्यं पाशी जय्यं पातिं जय्यं पातिं पागी जय्यं जय्यं पाशी जय्यं पतिं पागी यज्ञपतिं यज्ञपतिं पागी पागी यज्ञपतिं पागी पागी यज्ञपतिं पागी पागी यज्ञपतिं पागी यज्ञपतिं पागी यज्ञपतिं पागी पागी यज्ञपतिं यज्ञपतिं पाहि मां पागी यज्ञपतिं यज्ञपतिं पाहि मां यज्ञपतिपिति यज्ञ pātiṃ pāhimaṃ pāhi pāhimaṃ yajña-riyam yajña-riyam māṃ pāhi pāhimaṃ yajña-riyam māṃ yajña-riyam yajña-riḍam māṃ yajña-riyam yajña-riḍamiti yajña-riḍam How, how, how, how Gabo how, Gabo Gabo how, Gabo how Bita Bapathina Bita Bapathina Bva Bada Bapathina Gabo how, Prishabhapathir, how. Prishabhapathir, how. Prishabhapathir, how. वैराजपत्नीर्ह वैराजपत्नीर्ह वैराजपत्नीर्ह विश्वरूप विश्वरूप विश्वरूप अस्मासुरमध्वंह अस्मासुरमत्वं आस्मासुरमद्वां हौ वा के गावो वृषभपत्नीर्वैराजपत्नी विश्वरूपा स्मासूरमध्वम् ये गावो वृषभपत्नी वैराजपत्नीर् विश्वरू अस्मासूरमत् पा श्रावयन्तीयं भवति श्रीर्वै श्रयन्तीयं श्रीर्नवममः श्रियमेव तच्छ्रिया प्रतिष्ठापयति रुदगम् सग्स्पर्श्यमाचार्यो दद्यादि शिवानः सन्तमेत्योषधिना लभते सुमृडीकेति भूमिम् एवमपभर्गे धेनोर्दक्षिणा कगम् संवासश्च क्षौमम् अन्यत्वा शुक्लम् यथा शक्ति वा ये अरण्ये धीहीत तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति नवो नवो भवति जायमानोऽ अङ्केतुरुष समेत्यग्रे भागन् देवेभ्यो विदधायन्प्रचन्द्रमा अस्तिरति दीर्घमायुः सुमङ्गडीधियं वजुधिमागुं समेतपश्यत सौभा अयमस्यै दत्वा याथास्तं विपरेतनात् इमां त्वमिन्द्र मेध्वस्व पुत्रागुं सुभगा अङ्कुरु दशा अस्यां पुत्रानादेहि पतिमेकादशकृधि यो वैता अं ब्रह्मणो वेद अमृतेनाभृतां पुरीं तस्मै ब्रह्म च ब्रह्मा च आयुःकीर्तिं प्रजां भवतु सहनौ भुनक्तु सह दीर्यङ्करवाहै तेजस्वि धावधीतमस्तु मा विद्विषावघै शन्तिश्शन्ति हतिः ओ